श्रीहरये नमः अतद्वितीयोऽध्यायः श्रीशुक उवाच एवं गतेत सुद्युम्ने मनो वैवस्वतः सुते पुत्रकामस्तपस्तेपे यमुनायां सतं समाहा ततो यजन्मनुर्देवम् अपत्यार्थं हरिं प्रभुं इक्ष्वाहुपूर्वजान् पुत्रान् लेभे स्वस्थ लेबे स्वसदृशां दशा पृषद्रस्तु मनो पुत्रो गोपालो गुरुणा कृतः पालयामासे गायथो रात्र्यां वीरासनव्रतः ये गता सार्दूलो निशि वर्षति सा या नाघापभुत्ताय भीतास्ता एकां जग्राहबलवान् सा शुक्रो स तस्यात्तस्द्रन्ति तं श्रुत्वा पृषद्रोभि ससारः खड्गमाधाय तरसा प्रलीनोडुगणे निसे अजानन्नहनत्पभ्र शिरः सार्धूलशङ्खया व्याघ्रोऽपि निस्त्रिंशाग्राहतस्ततः निश्शक्रामभ्रूषं भीतो रक्तं पति समुत्सृजन् मन्यमानोहतं व्याघ्रम् पृषद्रपरवीरः अद्राक्षी स्वकथां भभ्रं व्युष्टायां निशि दुःखितः तं सुशाबकुलाचार्य कृताघसम् अखामतः न शत्रभन्तु शूद्रस्त्वं कर्मणा भवितामुना एवं सप्तस्तु गुरुणा प्रद्यताञ्जलिः अधारयत् प्रथं वीरन् ऊर्ध्वरथो मुनिप्रियं वासुदेव भगवती सर्वात्मनि परे मलेम् गतो भक्त्या सर्वभूतसुहृत्समः विमुक्तसङ्गशान्तात्म सम्प्यताक्षोपरिग्रहः यदृश्चयावुपपन्नेन कल्पयन् वृत्तिमात्मनः आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः विचचारमहीमेतां जडान्धबधिराकृतिः एवं वृत्तो वनं दृष्ट्वा धावाग्निमुत्थितम् तेनोपयुक्तकरणो ब्रह्म प्रापरं मुनिः कविकनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सगबन्धुबिर्वनम् निवेश्यचित्ते पुरुषं स्वरोचितं विवेकैशो रवयाः परं गतः करुषान्मानवाता सन्कारुषाशद्रजातयः उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः दृष्टाद्धार्शं मभोक्षत्रं ब्रह्म भूयं गतं शितो मृगस्य वंशस् सुमतिर्बोधज्योतिस्ततो वसो प्रति पुत्र ओघवा ओगवत्ता कन्या च वोगवती नाम सुदर्शन उवाहतां उरुश्रवासुतस्तस्य देवदत्तस्ततोभवत् ततोग्निवेश्य भगवान् अग्निः स्वयमभूत्सुतः कानि न विख्यातो जातु कर्ण्यो महान् ऋषिः ततो ब्रह्मकुलं जातम् आग्निवेश्यायनं नृपं नरिष्यन्तान्वयः प्रोक्तो तिष्ठवं समतः शृणो नाभागो तिष्ठपुत्रोऽन्यकर्मणा वैश्यतां गतः बलन्दनसुतस्तस्य वत्स प्रीतिर्बलन्दनात् कनित्र प्रमतेस्तस्माचाक्षुक्षोत विविंशतिः विंशतिसुतोरम्भक्कनि नेत्रोश्च धार्मिकः करन्धमो मकाराजत्तस्या सीतात्मजो नृपान् तस्याविशिक्सुतो यस्य जयत्यं वै महायोग्यङ्गिरः मरुत्तस्य यथा यज्ञो न तथान्यस्य कश्चन सर्वं हिरण्मयं त्वासीद्यत्किञ्चिच्चास्य शोभनम् अमाद्यदिन्त्रः सोमेन दक्षिणाभिर्द्विजातयः मरुतः परिवेष्टारो विश्ववेतो सभासदः मरुत्तस्य तमः पुत्रस्तस्यासीत्रा जवर्धनः सुदृशिस्तत्सुतो जज्ञे शौधृतेयो नर तत्सुतः केवलस्तस्मात् भन्तु मान् वेगवांस्ततः बन्तुस्तस्या भवत्यस्य तम्बे जेलम्बुषा देवी भजनीय गुणालयं पराप्रसाय तः पुत्रा कन्योचेडविडा भव तस्यामुत्पादयामास विश्रवाधनतं सुतम् प्राधाय विद्यां परमां ऋषेर्योगेश्वरा पितुः विशालशून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः विशालो वंशकृद्राजा वैशालीं निर्मले पुरीं हे हेमचन्द्रसुतस्तस्य धूम्राक्षस्तस्य च आत्मजहान् तत्पुत्रात् संयमातासीत् कृशाश्वः सखदेवजहान् कृशाश्वात् सोमधद्धो गतिं योगेश्वराश्रितः सौमधस्तिस्तु सुमतिस्तत्सुतो जनमे मालात् दृढभिन्दोर्यशोधराः इति श्रीमद्भागवते महापुराणे नवमस्कन्ते द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराजके जय